नमस्कारः नमो नमः अस्तु आरम्भं कुर्मः सर्वेषां स्वागतम् अधुना जयन्तिभगिनी प्रार्थनां वदति वा वक्तुं शक्नोति वा प्रार्थना बेनी, नमस्ते बेनी बेनि नमस्ते बेनि रिकनिमिषम् Okay. शुक्लं वर्दरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये यस्यरतवक्त्रात्याः पारिशस्याः परस्पर न्ति सततम् निष्वक्षेणम् तमाश्रये वसुदेवसुतम् देवम् कंसचानूरमर्धनम् देवकी परमानन्दम् कृष्णम् वन्दे जगत्कुरुम् प्रपन्नपारिजाताय श्रोत्रवेद्रैकपानये ज्ञानमुद्राय कृष्णाय गीतामृतदुःखे नमः घावो सर्वोपनषदो गोक्ता गोपालंदन पाथो वत्सुर्भोक्ता दुग्ध गीतामृतम शांताकारं शांताकारुजगशयनम पद्मनाभम सुरेशं विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्कम् लक्ष्मीकान्तम् कमलनयनम् योहिभिर्ध्यानगम्यम् वन्दे विष्णुं विष्णुम् भवभयहरम् सर्वलोकैखनाथम्बे हरि ओम् धन्यवादाः धन्यवादा, धन्यवादा पुनः एकवारं सर्वेषाम् स्वागतम् अस्माकं विषयः प्रवर्तमानविषयः अस्ति तत्र द्वितीया विभक्ति गतसप्ताहे वयं दृष्टवन्तः द्वितीया विभक्ति इत्युक्ते तत्र सूत्रद्वयं मया उक्त मया उक्तं तत् एकमस्ति तत् कर्मणि द्वितीया इति तत् कथं तत् द्वितीया विभक्ति भवति कर्मपदस्य अनन्तरमस्ति कर्म इत्युक्ते तत्र कारकदृष्ट्या कर्म इत्युक्ते कर्तुरीप्सिततमं कर्म इति कर्तुः यत् इष्टतमं तस्य कर्मसंज्ञा सः पदार्थः क्रियया कर्ता प्रकर्षेण प्राप्तुम् इच्छति अधुना तत्र उदाहरणार्थं यदा गमनक्रिया इति वदामः हा बालकः पाठशालां गच्छति तत्र गमनक्रियायाः लाभः कः पाठशालायाः प्राप्तिम् पाठशालायाः प्राप्तिम् भवेत् अतः सः गच्छति ह सो तत्र किं भवति कर्मपदम् पाठशाला इति कर्मपदम् कोऽपि भक्तः अस्ति सः विष्णोः प्रार्थनाम् करोति तत् भक्तः विष्णुम् भजति हा इष्टतमरूपेण भक्तस्य इष्टतमरूपेण विष्णुः प्राप्ति अतः तत् विष्णुः इति भक्तस्य इष्टतमरूपेण अत्र प्रयुज्यते खादनक्रिया अस्ति चेत् बालकः फलम् खादति तत्र खादनक्रियायाः इप्सिततमं किम् फलम् अतः तत् फलमिति कर्म तत्र वयम् इतोपि एकम् दृष्टवन्तः एकः विचारः यत्र कर्मपदं नास्ति इत्युक्ते यत्र अकर्मकधात्वम् अकर्मक इत्युक्ते यस्य कर्मपदं नास्ति सकर्म कर्मपदस्य सः सकर्म तत्र कर्मपदम् अस्ति क्रियायाः कर्मपदम् अस्ति अकर्मक्रिया इत्युक्ते तद्वयम् उदाहरणार्थं यदा हसति इति वदामः क्रियापदमस्ति हसति मनुष्यः पुरुषः हसति तत्र हस हसनक्रियायाः फलं कर्ता स्वस्मिन् एव फलं पश्यति तत्र मनुष्यः हसति किं हसति तत् किं पदस्य किमपि उत्तरं तत्र नास्ति फलं नास्ति परन्तु यत् फलम् अस्ति तत् कर्ता स्वस्मिन् एव पश्यन्ति तत् अनन्तरं शयनं शयनक्रिया शेते बालकः शेते नो चेत् तत्र वृक्षः वर्धते तत् वर्धनस्य फलं स्वस्मिन् एव अस्ति अतः तत् एषा क्रिया अकर्मक्रिया इति वयं वदामः अस्तु एवं सर्वं वयं दृष्टवन्तः तदा इतोपि एकं तत् पाठस्य नामकरणमस्ति योगक्षेमं वहाम्यहं तदा श्लोकस्य विषयक अपि वयं चिन्तनं कुर्मः योगक्षेमं वहामि अहम् अहं योगक्षेमं वहामि इति भगवान् वदति इत्युक्ते तत् योगक्षेमम् इति कर्मपद्धरूपेण प्रयुज्यते अस्तु अधुना अग्रे सरेम पुस्तकं प्रत्येव वयं गच्छामः एकनिमिष स्क्रीन् शेर् करोमि स्क्रीन् दृश्यते स्क्रीन् दृश्यते वा दृश्यते अस्तु पठामः वयम् एतावत्पर्यन्तं पठितवन्तः तत्र छात्रः पाठं पठति पाठौ पठतः एवं सर्वम् अग्रिमे किमस्ति पश्यन्तु तत्र वर्गीकरणं कथमस्ति अकारान्तपुल्लिङ्ग अकारान्तपुल्लिङ्गशब्दः अनन्तरं पुल्लिङ्गे रुकारान्त अनन्तरं स्त्रीलिङ्गि आकारान्त एवं सर्वं वर्गीकरणम् अस्ति स्त्रीलिङ्गिकारान्त तत् विभागाः सन्ति अत्र एकमेकं एकम पश्यामः प्रथमं सौचिकः इति अस्ति तदस्ति अकारान्तपुल्लिङ्गसौचिकः यथा रामहा, रामौ रामः इति प्रथमा भवति तथा सौच्छिकः सौचिकौ सौचिकाः इति प्रथमा भवति अत्र किमस्ति अत्र द्वितीया दृश्यते द्वितीयान्तपदानि कानि सौच्छिकः इति पुल्लिङ्गे अकारान्तशब्दस्य कृते द्वितीयान्तपदानि सन्ति सौचिकं सौच्छिकौ सौचिकान् रामं रामौ रामान् इति पठामः अस्तु अधुना विना विना भगिनी भवती पठति वा परन्तु एवम् इदं कृतवन्तः पूर्व वर्गे भगिनी एतत् वयं कृतवन्तः अस्तु अस्तु श्रुतिः परन्तु कृतवन्तः वा एतत् पृष्टुं वयं कृतवन्तः वा मुष्टिः न अस्तु हा चिन्ता मास्तु इदानीं मुष्टिः हा मुष्टिः तः आरम्भं करोतु मुष्टिः इति किं मुष्टिः अस्ति स्त्रीलिङ्गि इकारान्तशब्दः यदा मतिः कथमस्ति तथैव मुष्टिः पश्यन्तु तत्र मुष्टिः सिद्धिः पद्धतिः गतिः मतिः बुद्धिः ृतिः <दुती> एतान् सर्वान् शब्दानाम् अत्र ग्रहणं भवति इकारान्तपुल्लिङ्गे इकारान्तश्रीलिङ्गे अत्र नीतिः शब्दात् आरभ्य नीतिः कथं भवति नीति, अत्र ]नी, नेती नी। नी। कथं भवति मुष्टी मुष्टीः मुष्टिं मुष्टी मुष्टीः इति योग्यम् अग्रिमे सिद्धिं तिद्धि तिद्धीः पद्धतिः पद्धतिं पद्धती पद्धतीः गतिः गतिं गती गतीः गति पद्धती कृतिदि बुद्धि मती सर्वेषाम् अत्र ग्रहणम् अग्रिमे किमस्ति अग्रिमे तद् ब्राह्मी इति अस्ति तदपि ईकारान्तस्त्रीलिङ्गि ईकारान्तस्त्रीलिङ्गी सत्यं योग्यं पठतु ब्राह्मी ब्राह्मी ब्राह्म्यै ब्राह्मीः नारीमीं पुनः एकवारं वदतु ब्राह्मीं ब्राह्मीं ब्राह्म्यौ ब्राह्मौ ब्राह्मीः नारी नारीं नार्यौ नारीः वाणी वाणीं वाण्यौ वाण्यीः एतत् अगाकारान्त इकारान्त श्रीलिङ्गे अभवत् अगा किमस्ति पुष्पं तत् न पुषकलिङ्गे न पुसकलिङ्गे शब्द पुष्पम् भगिनी न श्रूयते भगिनी अद्य श्रूयते वा हा अधुना श्रूयते पुष्पम् इत्युक्ते नपुंसकलिङ्गिनी पुष् हा पुष्पम् परन्तु तत्र किं भवति रूपसिद्धेः मूलतः तत् अकारान्तशब्दः परन्तु तत्र नपुंसकलिङ्गिप्रत्ययाः सन्ति रूपसिद्धेः यदा वयं रूपसिद्धिं कुर्मः तदा तत् मकारम् आगच्छति कानिचन सूत्राणि सन्ति तेषां कारणात् तत् प्रथमान्तपदं तत् प्रथमाविभक्त्यन्तपदं भवति पुष्पं पुष्पे पुष्पाणि इति भवति तथैव द्वितीयान्तपदम् न पुस्तकेलिकिशब्दानां कृते अस्माकं लाभः कः प्रथमाविभक्ति द्वितीयाविभक्ति समान एव अतः पुष्पं पुष्पे पुष्पाणि हा पुष्पं पुष्पे पुष्पाणि वृजिनं वृजिनं वृजिने वृजिनानि वारि वा वारि वारिणि वारीणि वारी इति एतावत् <laughs> पर्यन्तम् इत्युक्ते तत्र सर्वेषां शब्दानां द्वितीया विभक्त्यन्तरूपाणि कानि इति अत्र दत्तमस्ति द्वितीयान्तरूपाणि इत्युक्ते कर्मपदम् अधुना अग्रिमे व्या वाक्यं दृष्ट्वा हा उदाहरणं दृष्ट्वा किं पदम् अत्र भवितुमर्हति इति चिन्ता हा धन्यवाद वीणा भगिनी धन्यवादः धन्यवादः अग्रे भारतमहोदय पठति वा उदाहरणं दृष्ट्वा तत्र आरभ्य भगिनी उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत व्यासः कथाम् लिखती कथाट कथा कथा आकारांगी श्वती विभक्त कथा कर्म पदं हा? हा लिखती किम का लिखती प्रश्ने सी उत्तर आगछति कथा कथा कर्मपदम तर द्वीया विभक्ति योजनी अत वैस कथा लिखती अग्रिमे गुरुः प्रणमन्ति गुरुशब्दस्य गुरु प्रणमति प्रणमन्ति इति अस्ति यतोहि तत् एताः इत्युक्ते स्त्रीलिङ्गि बहुवचनान्त चार्यः शिष्य शिष्य शिष्यः परिष्करोति परिष्करोति hmm. आचार्यः शिष्यं hmm. परिष्करोति योग्यं योग्य पिता मन्दमतिः hmm. बोधयति पिता पिता मन्दमतिं मन्दमतिं बोधयति बोधयति योग्य मित्रं सद्गुणगुणः वदति मित्रं सद्गुण गुणं आ, अधुना अत्र सर्वे सर्वे तो जानन्ति परन्तु मित्रम् इति नपुसकलिङ्गी शब्दः मित्रम् इत्युक्ते फ्रेण्ड् इति अर्थः अस्ति तदा मित्रम् इति मित्रम नपुसकलिङ्गी शब्दः परन्तु सूर्यः इत्यर्थे तत्र मित्रः इति भवति तत्र मित्रः ये पुिंगी एक मित्री पुिंगे अकारात परंतु नपुसकलिंगे ये विषय वाम मित्रं मम मिस्टा नपुसकलिंगे मित्रं, मित्रं सद्गुम वदती योग्य अग्रिमे जनाषय पूजय अधुना ऋषयः इत्युक्ते वचनं किमस्ति एकवचनमस्ति वा द्विवचनमस्ति वा बहुवचनमस्ति बहुवचनम् अस्ति अधुना चिन्तय चिन्तयतु ऋषि ऋषि इति शब्दः तस्य अत्र अस्ति ऋषि ऋषि इति शब्दः तस्य मुनि एव चलति द्वितीयान्तपदानि अत्र बहुवचनम् अस्ति अतः ऋषीं पूजयति बालकाः माता पृ पृच्छन्ति बालकाः माताः अत्र मातृ इति रुकारान्तशब्दः प्रातिपदिकस्य मातृ मातृ पश्यन्तु कर्ता ज्ञाता पिता अत्र पश्यन्तु ज्ञाता ह ज्ञाता इति प्रथमा परन्तु द्वितीया किमस्ति ज्ञातारं ज्ञातारौ ज्ञातृम् अत्र मातारम् इति नास्ति मातरम् इति अस्ति हा यतो हि तत्र ज्ञाताशब्दस्य ज्ञातारं भवति परन्तु माताशब्दस्य कृते तत् मातरं भवति अतः तत् शिशुः मातर बाम्यतां बालकाः बालकाः माता इति अस्ति एकवचनानन्तरं मातरं पृच्छन्ति पृच्छन्ति बालकाः आम् आम. ब बालकाः बहुवचनान्तं अतः तत्र पृच्छन्ति आगच्छति परन्तु माता इति एकवचनान्त एव दृश्यते अतः तस्य मातरम् एव यतो हि तत् प्रथमा किं भवति माता मातरौ मातरः अत्र मातरः यदि भवेत् तदा तत्र बहुवचनान्तम् अत्र माता एव दृश्यते अतः एकवचनान्तम् अतः किं रूपं पातरं पृच्छन्ति इति रूपम् स्पष्टमस्ति महोदय स्पष्टमस्ति माता शब्द भगिनी ऐ थिङ्क् टेक्निकल् डिफिकल्टिर मेसेजेस्ीप् पापिङ्ग् Uh, oh the server is not responding or something like that i rebooted one dart one time but looks like it's uh, on and off oh. coming but uh, okay I'll let okay it's working now at this time <clears throat> okay oh uh, i'm sorry that uh, i missed uh, the last sentence what you said so yeah ha pashyantu tatramata iti matru shabdasy ha matru shabdasy rupani vayam ekavaram pashyama कथं भवति अत्र अस्ति एकनिमेषं वयं पश्यामः मातृशब्दस्य शब्द ऋकारान्तमातृ मातृ ऋकारान्तस्त्रीलिङ्ग अत्र दृश्यते महोदय माता मातरौ मातरः द्वितीया किं मातरं मातरौ मातॄः अधुना तत्र किमस्ति पुस्तके किमस्ति वाक्यं दृष्ट्वा बालकाः माता पृच्छति बालकाः माता पृच्छन्ति अधुना माता इति अस्ति इत्युक्ते प्रथम एकवचनं तस्य विद्या किं भवति मातरम् यदि तत्र मातरः अस्ति मातरः शब्दस्य योजना करणीया अस्ति चेत् तदा किं भवति मातॄः दीर्घरुकार दृश्यते मातृ इति भवितुम् अर्हति परन्तु अधुना बालकाः मातरं पृच्छन्ति <laughs> <प्रुछन्ती>। आम् <laughs> तदस्य रुकारान्त स्त्रीलिङ्गशब्द मातृ अस्तु अधुना सेनापतिः व्यूहा रचयति रचयति तथैव सत्यं यस् सत्यं सत्यम् उत्तमम् किमर्थं तत्र आकारान्तश्रीलिङ्गिशब्दानां कृते माला माले माला हा, माला माले मालाः तथैव तिष्ठति तथैव व्यूहा इति आकारान्त श्रीलिङ्गिशब्द अतः तथैव तिष्ठति व्यूहाः रचयति योग्यम् अग्रिमे सुराः जयः प्राप्नुवन्ति सुराः जयं प्राप्नुवन्ति कौरवाः लाक्षागृहं लाक्षागृहं निर्मान्ति लाक्षागृहं निर्मा निर्मान्ति निर्मान्ति लाक्षागृहं तथैव किमर्थं तत् यथा वनं वने वनानि वनं वने वनानि तथैव लाक्षागृहम् इति नपुसकलिङ्गे लाक्षागृहं निर्मान्ति योग्य अस्तु धन्यवाद महोदय धन्यवाद अधुना अम्बिकापतिमहोदय भवान् पठति वा अनन्तरं कोष्टकं दृष्ट्वा वाक्यानि लिखत उदाहरणं त्वं कथां लिखस् लिखति अत्र किमस्ति पश्यन्तु तत्र त्वं युवां यूयम् एतद् वयं वदामः खलु सः तौ ते त्वं युवां यूयम् अहम् आवां वयम् अथवा अधुना त्वम् इति कर्ता अस्ति चेत् क्रियापदं किं भवति तत्र अग्रिमे दि पश्यतु लिखसि इति युवाम् इति कर्ता अस्ति चेत् किं भवति लिखतः यूयमस्ति चेत् किं भवति लिखत अहं कर्ता लिखामि आवां लिखावः वयं लिखामः हा अधुना तत्र इन् ब्राकेट् कथा कवि सचारा कथा यदिवती चेह कर्मपदम अस्त चेह आकारलिंगी अत कविता कविता शब्द से कवि रूप मला मलेक् स्त्रीलिंगी शब्द परंतु तथा द्विवचना तथा सचारा पुिंगी शहुवचना अनन्तरम् अत्र अत्र पश्यतु गीते इत्युक्ते गीतं गीते गीतानि हा गीते इत्युक्ते गीते किं भवति द्विवचनान्तरूपं पत्राणि पत्रं पत्रे पत्राणि बहुवचनान्तरूपं कादम्बरी नदी एव चलति नदीनद्यो नद्योः कादम्बरी कादम्बर्यो कादम्बरीयः इति अस्ति परन्तु मूलरूपेण त्वयम् इति वद त्वम् इति वदामः चेत् कर्ता भवति लिखसि िखसि युवां लिखथः यूयं लिखथ अत्र कथं भवति अहं लिखामि आवां लिखावः वयं लिखामः एतद्भवति हा कर्मपदस्य योजना यथा वयं जानीमः अकारान्तस्त्रीलिङ्गी अकारान्तपुल्लिङ्गी न पुस्तकलिङ्गी कथं परिवर्तनं भवति तस्य चिन्तनात् एवं सर्वं लिखामः अधुना वदतु त्वं कथां लिखसि अग्रिमे तत् युवां कृते कविता इति कथा लिखथ लिखतः युवां कविते लिखतः योग्यम् अग्रिमे यूयं यूयं कथां कथ हा अधुना समाचाराः इति शब्दस्य द्विवचनं बहुवचनं द्वि द्वितीयाविभक्ति बहुवचनं Hmm. Hmm. लिखत हा तत्र समाचारः इति न भवति यतो हि अस्ति अत्र पश्यन्तु सौचिकम् सौचिकौ इति अस्ति अतः अत्र किं समाचारान् पश्यन्तु पुनः रामस्य उदाहरणं रामः रामौ रामः रामौ रामौ रामौ रामाः रामान् ह रामः रामौ रामाः रामं रामौ रामान् तथैव समाचारान् एवं खलु यूयं समाचारान् लिखत स्पष्टमस्ति समाचारान् लिखत हा समाचारान् यतो हि तत् द्वितीया विभक्ति बहुवचनान्तपदम् न् लिख इति भवति अधुना अग्रे अहम्? अहम् कथां कथां लिखामि अहं कथां लिखामि अहं स्पष्टे न जानामि अहं कथाम लिखामि वा अत्र गीते अपि अस्ति खलु अहं गीते इत्युक्ते गीते कथं भवति गीतद्वयं गीता हा गीतं हा गीतं वनं वने वनानि तदा के भवति गीतं गीते गीतानि अहं गीते लिखामि एवमपि अस्ति हा अधुना आवां विषये वदतु आवाम् आवां गीते लिखामः लिखावः लिखावः. सम्यक् अनन्तरं वयं विषये किं भवितुमर्हति वयं गीतां लिखावः गीतान् तत्र किं भवति पश्यन्तु गीतम् हा गीतं, गीतं शब्द न पुस्तकलिङ्गीति स्वीकुर्मः चेत् पश्यन्तु पत्र पत्राणि अपि अस्ति पत्राणि पत्रम् पत्रे पत्राणि यथा वनम् वने वनानि पर्णम् पर्णे पर्णानि पुष्पम् पुष्पे पुष्पाणि तथैव किं भवति पत्रम् पत्रे पत्राणि आवाम् पत्राणि लिखावः वयं पत्राणि लिखावः अधुना कादम्बरी इति दत्तमस्ति कादम्बरी इत्युक्ते किम् इकारान्तस्त्रीलिङ्गे यथा नदी तथा तत्र किं भवति नदीनद्यो नद्यः नदीं नद्योः नदी, नद्यो नद्यो नदी। आ, अत्र अत्र पश्यतु एकनिमिषं ब्राह्मीं ब्राह्म्यो ब्राह्मी नदीं नद्यो नदीः तेन किं भवति कादम्बरीः एकवचनान्तं यदि इच्छामः चेत् कादम्बरीं लिखामः वयं कादम्बरीं लिखामः अधुना स्पष्टमस्ति महोदय स्पष्टमस्ति अस्माभिः किं स्मर्तव्यम् पश्यतु अत्र एकः अभ्यासरूपेण किं करणीयम् एकं राम इति शब्दः रामः इति शब्दं स्वीकरोतु रामः तथा तथैव माला आकारान्तश्रीलिङ्गे तथैव मती इकारान्तश्रीलिङ्गे नदी इकारान्तश्रीलिङ्गे रवि वा हरि इकारान्तपुल्लिङ्गे भानु उकारान्तपुल्लिङ्गे अनन्तरं नपुंसकलिङ्गे वनं वा पुष्पं वा एतत् सर्वं स्वीकरोतु तेषां तालिका विभक्तितालिका स्वयं लिखति चेदपि वरं स्वयं स्वस्य अक्षरे वा तत्र लेप्टाप् उपरि तत्र स्थापयतु हा एकस्मिन् दिने पश्यतु अस्माकं बहूनि कार्याणि तु सन्ति परन्तु प्रातःकाले यदात एतत् सर्वम एकवारं पठनं यदि वयं कुर्मः यदा शक्यते चेत् एकवारं केवलं पठनम् अद्यदिने एव सर्वेषां पदानां कण्ठस्थीकरणं करोमि इति शनैश्चयने तत्र निरन्तरता भवेत प्रतिदिनम् एकवारं पठतु तेन सुलभीकरणं भवति अस्तु महोदय तेन अस्माकं मनसि झटिति झटिति आगच्छति अस्तु एषा तु प्रथमाविभक्ति एषा तु द्वितीया विभक्ति द्वितीया इत्युक्ते कर्मपदम् तत् अकारान्तपुल्लिङ्गी इकारान्तपुल्लिङ्गी उकारान्तपुल्लिङ्गी आकारान्तस्त्रीलिङ्गी इकारान्तस्त्रीलिङ्गी ईकारान्तश्रीलिङ्गी एवं सर्वं मनसि आगच्छति तालिका एव तत्र स्थापनीया अस्माकं पुरतः <laughs> <laughs> अस्तु सम्यक् <laughs> एतत् विना धन्यवादः महोदय धन्यवाद तत्र नूतनतया एकनि विषयं किमपि पश्यामि अग्रिमे तज्जयन्ती भगिनी भवती करोति वा कोष्ठके आं बेन् करोमि न दृश्यते बेन् न दृश्यते स्क्रीन् न दृश्यते वा इदा इदानीं दृश्यते कोष्टके विद्यमानानां शब्दानां द्वितीयविभक्तिरूपैः रिक्तस्थानानि पूरयत देवः भक्तान् पालयति सारति अधुना तत्र किम् एकनिमिषं वा तत्र प्रथमक्रमाङ्कः हा सर्वे कृपया शृण्वन्तु प्रथमः क्रमाङ्कः अस्ति तत्र भक्ताः इत्युक्ते कथं चिन्तनं भवेत् भक्त अकारान्त पुल्यन्ति तस्य भक्ताः प्रथमाविभक्ति बहुवचनम् अधुना अस्माभिः किं करणीयम् तत्र प्रथमाविभक्तिबहुवचन तस्य द्वितीयाविभक्ति बहुवचन एव भवेत् अतः देवः देवौ देवाः देवं देवौ देवान् तथैव भक्तान् पालयति इति रूपम् द्वितीयः अस्ति अश्वौ अश्वौ विषयस्य चिन्तनं हा वदतु भगिनी अधुना अश्वौ सार सारथिः अश्वौ निबध्नाति अश्वौ अश्वौ एव भवति खलु भगिनी आम् तदा किं पुल्लिङ्गी अकारान्तपुल्लिङ्गीरा द्वितीयविभक्ति अतः अश्वौ एव भवति आम् द्विवचनान्तरूपम् अतः न परिवर्तनं न परिवर्त मुनयः डेस् विन्दन्ति मुनयः सिद्धिं विन्दन्तिः इति एकवचनम् ऐ मीन् पुल्लिङ्गशब्दं सारी एकवचनम् अतः सिद्धिम् एव भवति द्वितीयविभक्ति एकवचनम् इति आ, परंतु सिद्धिंगी वीलिंग अस् पशन तुद्धिंगा स्त्रीव तस्माक स्त्रीलिंग पदा तथा स्त्रीलिंगी ग्रहण स्त्रीलिंग पदेश धृतराष्ट्रः डेश् शृणोति धृतराष्ट्रः युद्धवार्तां शृणोति युद्धे किं चलति इति सञ्जयतः शृणोति सः धृतराष्ट्रः युद्धवार्तां शृणोति अधुना सञ्जय सञ्जय कथम् एतत् सर्वं वक्तुं शक्नोति दिव्यं चक्षुः व्यासेन दत् हा अधुना तत्र कथं कथं कथं पश्यन्तु दिव्यदृष्ट्या हा इत्युक्ते तृतीयार्थपदम् सञ्जयः दिव्यदृष्ट्या सर्वं पश्यति तृतीया दृष्ट्या पश्यति हा अग्रिमे वयं वयं डेस् पठामः वयं भगवद्गीतां पठामः भगवद्गीता इति स्त्रीलिङ्गपदम् अतः तस्य भगवद्गीतायाः द्वितीया विभक्ति प्रथम एकवचनं भगवद्गीतायाम् इति भवति भगवद्गीताम् इति भवति वेदवादरतः वेदवादरताः प्रवदन्ति पुष्पितवाणी पुष्पितवाणी पुष्पितवाणि पुष्पित पुष्पितवाणी अत्र पुष्पितवाणी इत्युक्ते किं भगिनि स्वीट् वर्ड्स् हा इत्युक्ते तत्र तत्र कथं वयं वदामः तत् इच्छापूर्ववार्तानि इच्छा इच्छापूर्व इति नास्ति तत् पुष्पितवान् इत्युक्ते फ्लारल् इत्युक्ते तत् अन्नेसेसरिलि तत् हैप्ट् वन् इत्युक्ते एन्हान्स्ड् पुष्पितवाणि तत्र तथ्यांशदृष्ट्या तत्र बहु किमपि अस्ति इति न एता एतादृशी वाचा तत्र बहु किमपि तत्र यथार्थता नास्ति केवलम् उपरि उपरि पुष्पितवान् इति अर्जुनः इन्द्रियाणि भाषते अर्जुन अर्जुनः इन्द्रिया इन्द्रियाणि इन्द्रिया इन्द्रियम् इति नपुंसकलिङ्गपदम् अतः इन्द्रियाणि द्वितीयविभक्ति बहु वच प्रज्ञावादः ी बेनि सारी ट्वेल् दृष्टं प्रज्ञावादः अर्जुनः प्रज्ञावादाः भाषते अर्जुनः प्रज्ञावादान् भाषते प्रज्ञावादा अत्र प्रथमे अध्याये एव अस्ति खलु द्वितीयं तत् तत् इत्युक्ते तत् हा इत्युक्ते तत्र सः तत्त्वचिन्तनं करोति तत्र साक्षात् युद्धभूमौ कथम् आचरणं करणीयम् इति न तत्त्वार्थचिन्तनम् तस्मिन् समये तत्त्वार्थचिन्तनस्य आवश्यकताम् एव न आसीत् खलो, परन्तु सः तत् निरर्थप्रज्ञावादाः इति प्रज्ञावादान् भाषते उत्तमम् अग्रिमे दशतपर्यन्तं भवतु कः कः गुरु गुरून् गुरून् हन्ति कः गुरुन् कः गुरुन् हन्ति अस्तु गुरवः इति बहुवचनरूपम् अतः गुरु इति द्वितीयविभक्तिः बहुवचनरूपं भवति आसुरजनाः आसुरजनाः डेश् जानन्ति आसुरजनाः प्रवृत्तिं जाना जानन्ति प्रवृत्तिम् आसुरप्रवृत्तिं न जानन्ति इति न प्रवृत्तिं न जानन्ति न जानन्ति हा तत्र मूलः कः मूलतः प्रवृत्तिविषयकः ज्ञानम् आसुरजनानां कृते न सम्भवति इति न जानन्ति आम् बेन् ज्ञाने डेस् न असृजति ज्ञाने शास्त्रविधिं ज्ञाने शास्त्रविधिं न उत्सृजति उत्सृजति योग्यं धन्यवादः धन्यवादः शास्त्रविधिम् इत्युक्ते शास्त्रे शास्त्रेण विहितः शास्त्रेण विहितानि कर्माणि ते न त्यजन्ति ृजनं वा धर्मपालनं इत्युक्ते तत्र मातुः प्रति वा तत्र आ, पिता मातुः तेषाम् अनन्तरम् अस्माकं संसारे गृह गृहस्थ यदि अस्ति चेत् कर्तव्यकर्माणि ते कर्तव्य तेषां ते न त्यजनं कुर्वन्ति त्यज इति सत्यं धन्यवाद। धन्यवादः धन्यवादः अग्रिमे विना भगिनी भवती पठति वा अग्रिमे सर्वे डेश् hmm. uh, um. काङ्क्षन्ति सर्वे विजयं काङ्क्षन्ति स्थितप्रज्ञः डेश् संहरति स्थितप्रज्ञः इन्द्रियाणां संहरति न इन्द्रियाणि एव इन्द्रियाणि वने वनानि वनं वनं वने वनानि तथैवकलिङ्गेन्द्रियाणितप्रज्ञः इन्द्रियाणि संहरति कृष्णः अर्जुनस्य डेश् मोहयति अर्जुनस्य प्रज्ञाम् अर्जुनस्य प्रज्ञां सत्यं प्रज्ञां मोहयति सत्यं प्रज्ञां सत्यम् अग्रिमे मात माधवः पाण्डवश्च प्रदग् प्रदग् प्रदध्मतु अत्र किमस्ति माधवः पाण्डवः च शङ्खौ एव अस्ति माधव इति श्रीकृष्णस्य शङ्खं तत् तत् पाञ्चजन्यं पाण्डवः तत् माधवः पाञ्चजन्यौ ऋषिकेषु तत् देवदत् देवदत्तं खलु बेनि धनञ्जय आम् आम् आम् आम् तत् तत्र hmm. शङ्खद्वयम् अतः शङ्खौ इति रूपं तत् hmm. द्वितीयान्तपदानि तथैव एव अस्ति खलु hmm. शङ्खौ प्रदध्मतु इति hmm? hmm. माधव पाण्डवस्य शङ्खौ शङ्खौ प्रदध्मतुः आम् आम् सेनापतिः डेश् वीक्षते सेनापतिः सेना सेनाम् तेना, आ वीक्षते सात्विकाः डेश् यजन्ते सात्विकाः देवां यजन्ते सात्विकाः देवान् वाजन्ते यजन्ते सत्यम् अज्ञाः डेश् उपसेवते उपसेवन्ते उपसेवन्ते सोरि अग्न्याः विषयान् उपसेवन्ते विषयान् उपसेवन्ते सत्यं विषयान् विषया इत्युक्ते आसक्तिरूपेण लोभः दम्भः एवं सर्वं तेषाम् उपसेवन्ते अग्रिमे शङ्ख शङ्ख शङ्खघोषः व्यनुनादयति पृथिवीं व्यनुनादयति सौण्ड् पर्टिक्युलर्ली पृथ्वीं पृथिवीं व्यनुनादयति त्वं डेश् पश्य त्वम् कुरून् पश्य कुरून् पश्य सत्यं कुरून, वयं डेश् उपास्महे वयं हरीं हरिम् उपास्महे हरिम् उपास्महे सत्यं पितृव्रताः डेश् यान्ति पितृ पितृव्र पितृव्रताः पितरः पितृव्रताः पितरः आपितॄन् पितॄन् यान्ति पितॄन् यान्ति अस्तु भगिनि दुर्योधनः डेश् दर्शयति दुर्योधनः चमूम् एकनिमिषं किमभवत् एकनिमिषं चर्शयति सत्यमेव वन् ज़ीरो वन् भगिनि आमाम् एतदपि अभवत् क्षम्यतां हा अस्तु हा पितुव्रताः सत्यं दर्शयतु सत्यं सत्यं उत्तमम् उत्तमम् अधुना अद्यदिनस्य एतावत्पर्यन्तं वयं कृतवन्तः हा सर्वनाम सर्वनाम इति भिन्नविषय तस्य आरम्भम् अग्रिमे वर्गे कुर्मः अधुना धन्यवादाः अद्यदिनस्य कथा अस्ति किञ्चित् तत्र अवधानं दत्वा वयं पठामः तत्र दीर्घत्वमस्ति लघुकथा इति नास्ति परन्तु अहं मन्ये अवधानं दत्त्वा शनैः शनैः वयं पठामः प्रयत्नं कुर्मः अर्थगमनं कथं भवति इति अस्तु अम्बिकापतिमहोदय भवान आरम्भं करोति वा कः सिंह सिंहमूषकौ मूषयोः पुरातनानि कथा तु सर्वपरिच परिचिता महान् कालः यातः तामेव कथां श्रुत्वा सिंहमूषकव्यादानाम् अगणिताः शिष्याः वृद्धत्वम् आप्नुवन् वन, प्नुवन् सत्यं योग्यं परिवर्तिनी काले एषा कथापि परिवृत्ता अग्रिमे अपि पठतु अनन्तरं वयं पश्यामः वने कस्मिञ्चित् वने एकदा तरुतले कश्चन वनराजः सुप्तः कोऽपि व्याधाः तत्र आगताः सुप्तं सिंहं दृष्ट्वा ते सर्वे आनन्दिनाः आनन्दिताः यतः श्रीकटाराङ्गेडा क्रीडामि क्रीडामि ारङ्गे सिंहस्य सिंहस्य अवश्य अवश्यकता आसीत् सिंहम् अन्विष् अन्विष्यन्विष् अन्विष्यद्भिः अन्विष्यकम् Uh, लोहजालमपि uh, आसीत, आनीतम् आसीत् आनीतमासीत् <coughs> uh, तेषां पूर्वजैः तदा सिंहस्य उपरि क्षिप्तं uh, जालम uh, रज्ज्वा निर्मितं <coughs> uh, मूषकैः निना uh, विनाशायां विना विनायासां छेदित चेदितं तेन बाल तेन जालबद्धः सिंहः जालात् मुक्तः भूत्वा निरगच्छत् अप्रियस्य तस्य प्रसङ्गस्य Mm -hmm. पुनरावृत्तिः मा भवतु इति विचारेण तैः स्वसामीपस्थम् लोहजालम् सुप्तस्य सिंहस्य उपरि क्षिप्तम् mm -hmm. तस, तस्मात् सिंहः जालेन वृद्धः अभवत् mm -hmm. ृष्टुः चतसृषु विषुः दिक्षु दिक्षु नु, दिक्षु भूतौ भूमौ नागदन्ताम् निखाय पञ्चरम् आनेतुं ते सर्वे निस्सङ्गमना सा निस्सङ्गमना सा अस्मात् स्थानात् निर्गताः योग्यम् योग्यं धन्यवादः महोदय धन्यवादः यथा मया उक्तं तत् तत्र काठिन्यं स्तर स्तरवर्धनार्थम् एव एषा कथा अस्माकं किमस्ति तत्र एकमेकं एकम वाक्यं स्वीकृत्य वयं पश्यामः हा चिन्ता मास्तु अधुना प्रथमं वाक्यं तत्र सिंहमूषकयोः पुरातनीकथा तु सर्वपरिचिता अधुना तत्र पूर्वा किम् अभवत् तत्र सिंहः आसीत् सः व्याधैः जाले बद्धः तत्र जालः तत यत् आसीत् तत् रज्जु ज्वालं रजवा निर्मिता ज्वालम् रज्जु इत्युक्ते तत्र थ्रेड्स् इति तदा किम् अभवत् मूषकस्य साहाय्येन मूषकाः तत्र जालस्य कर्तनं कृतवन्तः तेषाम् तस्मात् कारणात् सिंहः बन्धनात् मुक्तः इति कथा Mm -hmm. अधुना mm -hmm. गच्छता कालेन तत्र परिवर्तनम् कथम् भवति हा अधुना तत्र सा कथा तु परिचिता परन्तु अधुना तत्र महान् कालः यातः गच्छता कालेन टैम्पास्ट् तामेव कथाम् श्रुत्वा सिंहमूषकव्याधानाम् अगणिताः शिशवः वृद्धत्वम् आप्नुवन् इत्युक्ते तत्र किम् उक्तमस्ति तत्र एषा एव समाना कथा वारं वारं तत् शिशवः इत्युक्ते तत्र मातामही वा पितामही वा सा एव कथा तत्र समाना एव कथा तत्र समानां कथानाम् एव श्रवणं कृत्वा कृत्वा ते वृद्धत्वम् आप्नुवन् इत्युक्ते इन् शार्ट् जनरेशन् आफ्टर् जनरेशन् सेम् स्टोरि वास् टोल् टु द नेक्स्ट् जनरेशन् इति इति भावः मुषकव्याधानाम् अगणिताः शिशवः मुषकव्याधानाम् अत्र पश्यन्तु तत्र मुषकानामपि व्याधानामपि व्याधः इत्युक्ते यः कोऽपि तत्र जा, जाले तत् निबध्न निबन्धं तत् कृतवान् तत् तस्य विषये तेषाम् अपि अग्री पूर्वसुरी तत् तथैव श्रु कथां श्राव श्रावयित्वा तेषां वृद्धत्वम् अप्नुवत् इति लिखितमस्ति परिवर्तनी काले एषा कथापि परिवृत्ता अधुना एषः मुख्यविषयः परिवर्तिनी काले परिवर्तिनी संसारे इत्युक्ते देर् इस् आल्वेस् चेञ्ज् चेञ्ज् इस् सटन् एषा कथापि परिवृत्ता थ आशय अ पिवर्तनम सबतने बद सिंह अन मूषका तस्व मुक्त एक अजुना तथा पिवर्तन दृश्य है कि पर्तनम अद्यदिनस्य अस्माकं कथा कस्मिंश्चिद् वने एकदा तले कश्चन वनराजः सुप्तः सुप्तः इत्युक्ते सः शैतः शयनम् करोति हा वनराजः अस्ति तत् लायन् किङ्ग् इति वयं जानीमः वनराज इति नामकरणं सः सुप्तः हा सिंहः शैते कुत्र तरुतले इति स्थाने वने केपि व्याधाः तत्र किं महोदय वनं समानार्थं तरुतले तरुतले तरुतले इत्युक्ते तरुः इत्युक्ते वृक्षः तरुः इत्युक्ते तरुः अनन्तरं पादपः वृक्षस्य समानार्थकशब्दाः पादपः इत्युक्ते किम पादैः पिबति हा तेषां पाद इत्युक्ते रूट्स् इति वदामः मूल मूलानि सन्ति न तेषामेव अन्नस्य ग्रम तत मूलानि एव अन्नग्रहणम् जलग्रहणम् करोति अतः पादपः पादैः पिबति इति वृक्षः पादपः तरुः इति समानार्थकशब्दः वनराजः तत्र सुप्तः हा केऽपि व्याधाः तत्र आगताः अधुना त व्याध आगता पर्या पूनरेशन वादा हाँ सन वाघ व्याधा तगता सुप्त सिंहम दृष्टि ते सर्े आनंदता मोदीता सुत सिंह तैयारी दृष्ट य क्रीडारङ्गे सिंहस्य आवश्यकता आसीत् क्रीडारङ्गे सिंहस्य आवश्यकता आसीत् क्रीडारङ्गे इत्युक्ते तेषां किमपि क्रीडनमस्ति तत् सर्कस् वा तदपि किमपि तत्र क्रीडाप्रकारे सिंहस्य आवश्यकता आसीत् अतः व्याधाः हर्षिताः सिंहम् अन्विष् द्भिः तैः एकं लोहजालम् अपि आनीतम् आसीत् अधुना अत्र अन्विष्यद्भिः तैः तैः इति तृतीया बहुवचनान्तरूपम् तैः हा अधुना तैः अन्विष्यत् अन्विष्यद्भिः तत्रापि तृतीया बहि बहुवचनम् हा इत्युक्ते तत्र सिंहस्य दर्शनं व्याधैः कृतं तैः सिंहं दृष्ट्वा तैः एकं लोहजालमपि आनीतमासीत् अधुना लोहजालस्य योजना पूर्वस्मिन् पुरा पूर्वस्मिन् काले तैः रज्जुजालं रज्जुजालस्य योजना कृता अधुना लोहजा लोहजा किमत अधुना मुषकै कर्तनम मूषकर्तन न छेदनम न भवि अतः लोहजा अग्रिमे वाक्य पश्यु तूर्वज तदा तस् सिंह क्षिपत जाज्वा निर्मित पूर्वज क्षि क्षि क्षिप्त तत् जालं यस्य जालस्य सेपणं कृतम् आसीत् पूर्वा पुरा रज्वा रज्ज्वा निर्मितमासीत् अधुना व्याधाः अपि चतुराः सन्ति रज्वा निर्मितं जालं लो न लोहेन निर्मितं जालं हा लोहजालं ते अनीतवन्तः रज्ज्वा निर्मितं जालं तज्जालम् मूषकैः विनायासं छेदितं मूषकाणां कृते तस्य छेदनं सहजतया अभवत् आसीत् सर्वे व्याधाः एतं सर्वं स्मृतवन्तः स्मरणे स्थापितवन्तः तस्मिन् समये किम् अभवत् पूर्वजानां दोषः कुत्र वर् अवर्तत् रज्वा निर्मितं जाल एतस्य योजना अधुना एषा योजना न करणीया अधुना लोहजालस्य योजना तेन यत्र पुरा मूषकैः विनायासं छेदितं तेन जालबद्धः सिंहः जालात् मुक्तः भूत्वा निर्गच्छत् अतः तत्र विनायासं सिंहस्य मुक्तता अभवत् तस्मिन् समवे हाँ? अुना असर प्रसंग से पुनरावृत्ति मत मन से अिय प्रसंग कथम सत्ंह मूषकोर द्वो सहाय बिंह बद्धसीला मुक्त असंग तुते पूर्वज योग्यम अव अधुना एक चतुरा हा तत् तादृशं चातुर्यम् न प्रदर्शितम् अप्रियस्य तस्य प्रसंगस्य पुनरावृत्ति मा भवतु एषः एव प्रसंग पुना तस्य आवृत्तिम् न भवेत इति विचारेण तैः स्वसमीपस्थं लोहजालम् सुप्तस्य सिंहस्य उपरि छिप्तम् अधुना लोहजालस्य एव योजना तस्मात् सिंहः जालेन बद्धः अभवत् hmm. तत् सिंहस्य उपरि लोहजालं क्षिप्तम् अतः सिंहः बद्धः केन चतसृषु दिक्षु भूमौ नागदन्तान् निखाय अत्र पश्यन्तु चतस्रुषु दिक्षु फोर डिरेक्षन् दिक्षु फोर् hmm? डिक्षन् भूमौ नागदन्तान् नागदन्तन् इत्युक्ते देट् पर्टिक्युलर् आर्क् निखाय तस्य योजनां कृत्वा पञ्जरम् आनेतुं पञ्जरमित्युक्ते केज् ते सर्वे निःशङ्कमनसा तस्मात् स्थानात् निर्गताः तस्मात् स्थानात् निर्गताः ते ततः निर्गताः इत्युक्ते अधुना सिंहः तु लोहजालेन बद्धः लोहजालम् अस्ति अतः तत्र मूषकैः तस्य कर्तनं वा छेदनं न सम्भवति ते निश्शङ्कमनः निशङ्कमनः अधुना पञ्जरस्य आवश्यकता पञ्जरेण तत्र सिंहस्य अपनयनं भवितुमर्हति तत्र सिंहं ते नायति केन ना? पञ्जरेण अतः कस्य योजना चतुसृषु दिक्षु भूमौ नागदन्तान् निखाय इत्युक्ते तत्र यत् लोहजालम् अस्ति तत् पूर्णतया तत्र बद्धः भवेत् हा लोहजाल अतः तत् नागदन्तान् इत्युक्ते आर्क् भूमौ तत्र भूमौ आर्क् नागदन्तान् स्थापित्वा ते पञ्जरम् आनेतुं ते सर्वे निःशङ्कमनसा अधुना चिन्ता एव नास्ति तत्र सिंहस्य बन्धनात् मुक्तता न सम्भवति मूषकैः तस्य छेदनम् जालस्य छेदनम् न सम्भवति इति आश्वस्तमनसा निःशङ्कमनसा तस्मात् सातात् निर्गताः स्पष्टमस्ति एतावत् निश्शङ्क निःशङ्कः पुनः निःशङ्क इति तु मनसि सन्देहः एव नूर् hmm. मनसि hmm. न सन्देहः अधुना किमपि भवतु नाम सिंहस्य no, मुक्तता न सम्भवति एव नाट् पासिबल् टु एक्स्केप् फार् लायन् इति निःशङ्क मनसि शङ्का मनसि सन्देहः आशङ्का एव नास्ति नो no डौट् तस्मात् स्थानात् निर्गता अधुना अग्रिमे पठामः किं भवति भारतमहोदय भवान् पठति जालस्पर्शेन तथा आरभ्य आं भगिनी जालस्पर्शेन सि सी, सिंहः जागरितः अभवत् चलन् वलने अक्षमः जालबद्धः सः क्रोदेन गर्जनं प्रारभत hmm. तस्य गर्जनं श्रुत्वा समीपस्पस्थः समीपस्थः पुष्पराजः बिलाद बहिः आगतः सः जालबद्धं सिंहं अपश्यत् प्रपितामहस्य प्रपितामहम् अस्मरत् सिंहेन प्रती प्रतितामहस्य प्रपितामहस्य प्रपितामहस्य प्रपितामहाय कृतः उपकारः तेन स्मृतः mm. सः झट् जट, झटिति स्व स्वस्य बान्धवान् आहयत् आहयत् इति okay, बहवः पुषकाः तत्र धावन्तः यथा परिवृत्य य संक पिवृत उधता अभवं अशेन हाँ तेपणम अभवत लोहजालस्य क्षेपणं सिंहस्य उपरि अभवत् व्याधाः सर्वे तिप्तवान् तेन सिंहः जागरितः अभवत् सः सुप्तः आसीत् परन्तु स्पर्शेण किम् सह, सह अधुना जागरितः निद्रा निद्रातः सः जागरितः अधुना जालबद्धे सः जालेन बद्धः तेन चलनवलने अक्षमः तत्र चलनं वा वलनम् इत्युक्ते चलनवलने इत्युक्ते मूमेण्ट् अक्षमः न सक्षमः न शक्यति अधुना सः जालबद्धः चलनवलने न सक्षमः क्रोधाविष्टः क्रोधेन गर्जनं प्रारभत् गर्जनां करोति सः तस्य गर्जनं श्रुत्वा किम् अभवत् महोदय समीपस्थः तस्य गर्जनं श्रुत्वा समीपस्थः पुषकराजः बिलाद् बहिः आगतः स तस् सः तस्य गर्जनं श्रुत्वा पुषकराजः बिलाद् बहिः आगतः पुषकराजः आगतः बिलात् बहिः आगतः गर्जनां श्रुत्वा अधुना सः जालबद्धं सिंहम् अपशत् मुषकराजः हा अधुना अत्र पश्यतु मुषकराजः वनराजः इति लायन् किङ्ग् अत्रापि मुषकाणां राजा इति सः मुषकराज सः जालबद्धं सिंहम् अपशत् प्रपितामहस्य प्रपितामहम् अस्मरत्य अधुना अत्र पश्यन्तु प्रपितामह इत्युक्ते पूर्वजः ग्रेट ग्रेट् ग्रेट् ग्रेट् ग्रेण्ड् फादर् इत्युक्ते तत्र पूर, पूर्वजः तत्र अस्माकं पूर्वजैः तत् किं कृतम् इति सः कथा Ah, hmm. पूर्वा या कथा अभवन् तस्य कथा अधुनात्र अत्र जालबद्धः तत्र रज्ज्वा निर्मितं जालम् अतः तत् सिंहा सिंहः तत्र, तत्र बन्धमुक्तः अभवत् एतत् सर्वं सः स्मृतवान् सिंहेन hmm. प्रपितामहस्य प्रपितामहाय कृतः उपकार स्मृतः अधुना तत्र तस्मिन् समये किम् सिंहः बन्धमुक्तः अदनन्तरं अदन सः अपि मृषकाणां साहाय्यं कृतवान् आसीत् तस्मिन् समये सः स्मृतवान् एतं सर्वं मुषकराजः सः झटिति स्वस्य बान्धवान् आवयत् इत्युक्ते किं <laughs> महोदय आवयत् आवयत् इत्युक्ते काल्ड् स्वस्य बान्धवान् इत्युक्ते अन्यान् मूषकान् अन्यान् मूषकान् बान्धव इति दत्तमस्ति हा अतः अन्यान् मूषकान् सः आवय आवयत् हि काल् डि अदम् मूषकाः इति अस्तु अधुना मुषकराजः आवाह आवाहनं करोति अतः बहवः मूषकाः तत्र धावन्तः आगता हा तत्र राजाज्ञा एव राजाज्ञा एव सर्वे धावन्तः आगताः यथा सङ्कीर्तं ते परिवर्त्य जालं छेदुतं छिद्धुम् उत्थिता अभवन् इत्युक्ते जे, सः ते जालं छेदुतं न अभवन् अभवन् इत्युक्ते यथा सङ्केतम् अत्र सिंहः बन्धनात् अस्ति अतः अस्तु अस्तु, अस्तु एषः सिंह तस्य प्रपितामहस्य प्रपितामहम् अस्मान् उपकार तस्य उपकारं स्मृत्वा अधुना अस्माभिः साहाय्यं करणीयम् अतः जाल जालं छित्तुं ते आरब्धवन्तः सम्यक् न श्रूयते न श्रूयते ओहो अन् अन्यैः श्रूयते वाूयते श्रूयते वीणा भगिनी एकवारम् एक्सिट् कृत्वा पुनः एकवारम् आगच्छतु इट् इस् नाट् जस्ट् मी भगिनि अम्बिकापति महोदय आल्स ऐ थिङ्क् इट् इस् बिका अदर्स् वेयर् इन् नाट् म्यूटेड् एवं वापि इतोपि प्राब्लम् भगिनी जस्ट् रीबूटेड् कपल् आफ़् टैम्स् इन् दो इन् हेपन् सो ऐ जस्ट्बूटेड् मै राटर् एण्ड् नौ ऐट् इस् ओके भगिनि अस्तु अस्तु अस्तु गच्छामि अस्तु स्क्रीन् अपि दृश्यते सम्यक् अधुना तत्र यथासङ्ख्येन सिंहं परिवृत्य जालं छेत्तुम् उद्यताः इत्युक्ते ते अपि जालं छेत्तुं सज्जाः एतावत्पर्यन्तम् अग्रिमे किम् अभवत् पश्यामः हा पर्याप्तं वीणा वीणा भगिनी आरम्भं करो धन्यवादः धन्यवादः विना भगिनी अधुना पठति वा कोलाहलः जातः कोऽपि मूषकाः वेदनया आक्रन्दन् केषाञ्चन मूषकाणां दन्ताः त्रुटिताः केषाञ्चन मुखात् रक्तस्रावः प्रारब्धः hmm. सर्वे अभवत् hmm. अस्मात् अकस्मात् सोरि अकस्मात् न hmm. इति स्वगतम् उक्त्वा मूषकराजाः hmm. अग्रे आगत्य सर्वं निरैक्षत् hmm. <coughs> किम् तत्र प्रवृत् इति दर्शनमात्रेण अवगतम् तेन सः hmm. मूषकान् असान्त्वयत्सान्त्वयत् <laughs> असान्त्वयत् सर्वं <laughs> <तुएत्त। laughs> <तुएत्त। laughs> वृत्तान्तम् <पुरुत्तांतं> वनराजम् अकथयत् च <laughs> किं hmm. दत्तमस्ति <laughs> <laughs> <laughs> अधुना क्षणार्धे <laughs> क्षणार्धा एव कोलाहलः जातः का, का हा अधुना मूषकाः जालं छेत्तुं सज्जाः ते जालछेदनम् आरब्धवन्तः आरब्धवन्तः कोऽपि मूषकाः वेदनया आक्रन्दन् कोऽपि मूषकया वेदनया आक्रन्दन् यतोपि लोह लोहजालः लोहजालम् लोहजालमस्ति सः मूषकः दन्ताः त्रुटिताः छेदनं कर्तुं न शक्नुवन्तः तस्य दन्ताः त्रुटिताः लेब्रोग्दर्टीत् केषाञ्चन मुखात् रक्तस्रावः प्रारब्धः and mm. some had uh, some started bleeding from their teeth because they were mm. they could not bite the metal jalah sarve mushaka bhita jataha they all got frightened yogyam kem bhavat akasmad what what uh, what what just happened najane iti swagatam uktwa they thought that अग्रे आगत्य सर्वे निरै मुषकराजः अस्ति इति स्वगतम् उक्त्वा स्वगतम् इत्युक्ते मनसि एव मुषकराजस्य तस्य आज्ञानुसारेण सर्व तत्र गतवन्तः छेदनमपि आरब्धवन्तः परन्तु सर्वे भीताः रक्तस्रावः दृश्यते किम् एतत् सर्वम् अतः सः न जाने इति उक्त्वा सः अग्रे आगतवान् मूषकराज अग्रिमे किं तत्र किं तत्र प्रवृत्तम् इति दर्शनमात्रेण अवगतं तेन सः अवगतम् हि गोट् नो वाट्स् हेपनिङ्ग् सः मूषकान् असान्तव्यत् असान्त्वयत् इत्युक्ते इत्युक्ते सो हि कन्सोल्ड् अदर् मै सर्वं वृत्तान्तं वनराजम् अकथयत् चि डिस्क्रैब्स् हेनिङ्ग् टु दत् सिंह सिंह उत्तमम् उत्तमं अग्रिमे तत् रमा भगिनी अस्ति खलु तत्र धन्यवादः धन्यवादः हा पठति राम भगिनी अधुना किम कर्तव्यम् अधुना अधुना किं कर्तव्यम् अहं कथं जालम् उक्तः भवेत् भवेयम् अल्पः कालः अन्यथा अन्यता, अन्यता इति चिन्तयन् विषाद विषादग्रस्तः जातः Hmm. तदा मूष मुशक, मूषकराजः अवदत् hmm. महाराजः कापि चिन्ता न कार्य कार्या ग्रामीणेषु hmm. ग्रामीणेभ्यः ग्रामी वनवासिनः चतुराः इति वचनं श्रूयते इति वचनं श्रूयते वयं किमपि कुर्यां कुर्याम येन येन भवान् शालात् मुक्तः भवेत् तत् सिंह चिन्तया पञ्चदशनिमेषाः अधीताः विचारादी विचाराधीनः मूषराजः हर्षेन वेन शे एव हर्षेण अवदत् हर्षेण अवदत् उत्तमः कल्पः वयम् एतदेव कार्यां कार्यं कारयामः कार्याम कुर्याम कुर्याम एतदेव कुर्यामः कुर्यामः वयम् एतदेव कुर्याम महाराजः महा भवतु महाराज भवान् पश्यतु अधुना पश्यतु अधुना श्रद्ध भवतु भवान् उद्धातुम् उत्थातुम् सिं, सिंह सिंहः चिन्तया अपृच्छत् किमेतत् शक्यम् अधुना अत्र आगच्छतु किमभवत् अत्र सिंहः वदति किं किं करणीयम् अधुना अहं कथं जालात् मुक्तः भवेयं भवे अत्र शैली शैली सर्वे शैली कथमस्ति अल्पकालः अन्यथा अन्यथा अनन्तरं किमपि लिखितं नास्ति अन्यथा अनन्तरं किमपि लिखितं नास्ति ते इत्युक्ते तद् अन्यथा चिन्तनम् अन्यथा अहं मृतप्राय भवामि इति मम मरणमेव दृश्यते अन्यथा अल्पकालः एव इति चिन्तयन् विषादग्रस्तः जातः वनराजः अतीवखेदः मनसि मरणं दृश्यते पुरतः मरणं दृश्यते अतः सः दुःखग्रस्तः विषादग्रस्तः शोकमग्नः इति मुषकराज मुश्यकरा, किं वदति चिन्ता न करणीया चिन्ता न कार्या ग्रामीणेभ्यः वनवासिनः चतुराः इति वचनं श्रूयते वयम् किमपि कुर्याम् ये भवान् जालात् मुक्तः भवेत् अधुना चिन्ता न करणीया एतत् तत्र विचारेण किमपि एक एकनिमेषं सर्वे म्यूट कुर्वन्तु मम ध्वनि एक सर्वे एकवारं म्यूट् कुर्वन्तु चिंता ना हा अधुना चिन्ता न करणीया हा वयं किमपि तत्र चातुर्येण वर्तनं कुर्मः तेन भवान् जालात् मुक्तः भवेत् हा अधुना पञ्चदशनिमेषाः अतिताः तत्र विचाराः सः विचारं करोति तत्र पञ्चदशनिमेषाः अतीताः टैम्पास्ट् विचाराधीनः मूषकराज हर्षेण अवदत् अधुना किमपि मनसि आगच्छति अतः हर्षः सन्तोषः उत्तमः कल्पः इत्युक्ते उत्तमः कल्पः उत्तमः विकल्पः उत्तमा कल्पना वयम् एतदेव कुर्याम निश्चयेन वदति एवं वयं सर्वे मिलित्वा एतदेव कुर्यामः महाराज पश्यन्तु अधुना सज्जः भवतु भवान उत्थातुम् अधुना भवतः जालात् निश्चयेन मुक्तः भविष्यति सज्जं भवतु सज्जः भवतु भवान् उत्थातुम् परन्तु सिंहः तु तस्य मनसि विषादस चिन्तया अपृच्छत् किम् एतत् शक्यम् अधुना सिंह तस्य मनसि निराश निराश निराशा अस्ति सः वदति एतत् न शक्यते कथम् अधुना तौ न शक्यते सर्वे मूषकाः प्रयत्नं कृतवन्तः परन्तु छेदनम् अशक्यमेव यतो हि तत् लोह लोहस्य जालमस्ति इति सः तु किम् एतत् शक्यमिति पृच्छति स्पष्टमस्ति रमा भगिनी अस्तु भगिनि अस्तु भाईने, अग्रिमी जयन्तीभगिनी पठति वा मूषकराजः अवदत् तत् आरभ्य आम् बेनि पठामि मूषकराजः अवदत् महाराज परिवर्तन्यम् परिवर्तिन्यम् स्थितौ उपायोऽपि परिवर्तनीयः इति सर्वे मूषकाः मूषकाः शतसृग् शतसृभ्यः शा, दिग्भ्यः मूषिक मूषिकननं सारिवे सारिवे भूमि भूमि खननं प्रारं प्रारबधन् प्राभन्त मूषिकराजः वदन्ति महाराज परिवर्त परिवर्तिन्यां स्थितौ उभयो अपि परिवर्तनीयः यदपि परिवर्तनं भवति तद् तद् तदा ततः परं वयं परि आ, परिवर्तनं करो कुर्मः इति चिन्तयति मिलति तदनन्तरं वयं परिवर्तनं कुर्मः इति सर्वे मूषुके तत्र यदा परिवर्तनं भवति तदा समानेन उपायेन किमपि न सिध्यते उपाये, उपाये मार्गे तत्रापि परिवर्तनं भवेत् एव अस्तु अवदत् अग्रिमे किम् अभवत् सर्वे वृक्षकाः शतश्रुभ्यः दिग्भ्यः भूमिघननं प्रार प्रारभन्तः सर्वे मूषिकाः बहु चतुरः कलबेन दिग्भ्यः भूमिघनम् ऐ मीन् आरब्धवन्तः दिग्गिङ्ग् दूमि चतुसृभ्यः दिग्भ्यः फ्रम् आल् फोर् डिरेक्षन् अगेन् भूमिखननं प्रारभन्त अचिरादेव भूमिः शिथिला जाता इमीडियेट्लि चिरादेव भूमिः शिथिल ऐ मीन् किञ्चित् किञ्चित् भग्नं भवति इत्युक्ते सायिल् बिकेम् लूज़् इति शिथिल भूमौ लिखाताः नाग नागधन्ताः उन्मीलिताः भू भूम्ये बुम, लिखाताः नागदन्ताः उन्मीलिताः नागदन्त इत्युक्ते दोस् आर्क् पर्टिक्युलर् उन् उन्मूलिताः इत्युक्ते अप्रूटेड् ओपन् ओपेन् ओपन् इत, मूषकराजेन सङ्केतः कृतः मूषकराजा वयं सूचयति सङ्केतः इन्फर्मेशन् फास्ट् इन्फर्मेशन् सिंहः बलात् उत्थितः सिंहः वीरेण धीर वीरधीर स्वभावेन उत्थितः झटिति उत्तः अहो आश्चर्यम् अहो आश्चर्यम् सिंहः जालात् बहिः आगतः अहो आश्चर्यम् सिंहः धैर्ये ऐ मीन् बलेन जालात् बहिः आगतः सर्वैः मूषकैः उच्चैः करताडनम् कृतम् ते नर्तितुम् प्रारभन्त mm -hmm. एकवारं सिंहः बहिः आगतः सर्वे मूषिकाः अपि बहिः आगतवन्तः सर्वे मूषकाः उच्चैः कोलाहलेन करताडनं कृतवन्तः ते नर्तितं नर्तितमपि कृतवन्तः प्रारब्धवन्तः हर्षो हर्षो उल्लासः हर्षेण उल्लासेन योग्यं सम्यक् बहु सम्यक् अग्रिमे तत् अस्माकं समयः अधुना हा अस्ति अस्ति समयः अग्रिमे हा धन्यवादः भारतमहोदय भवान् पठति वा हर्ष हर्षोत् फुल्लः सिंहः कृषकराजं कृतज्ञ कृतज्ञतापूर्वकम् अभिबन्ध अवदत् मित्र धन्यवादाः भवान् तु विद्या विद्यादिदेवस्य वाहनम् अस्ति चतुरः अपि अस्ति इत्यत्र नास्ति संशयः अस्माकं मैत्री तु अबाधिता अस्ति इति भवता पुनः एकवारं साधितम् भवान् मम मित्रं भवतः प्रशंसा यावत् क्रियेत् चेदपि तत् अपर्याप्तमेव अद्य प्रभृति वयम् अस्माकं पुत्रपौत्रान् एतां घटनाम् अपि कथारूपेण कथ कता कथयिष्यामः hmm. इति एवम् उक्त्वा पुनः अपि कृतज्ञतां समर् सम समर्प्यं समर्प्य <laughs> वनराजः गुहां गतः <गत़ा। laughs> अधुना वनराजः तु बंधनात मुक्तः तत् मुषकराजम् कृतज्ञतापूर्वकम् अभिवन्द्य अभिवन्दनं कृतवान् धन्यवादः इति धन्यवादान् व्यावहरति सः वदति भवान् विद्याधिदेवस्य वाहनमस्ति गणपतेः गणेशस्य वाहनं चतुरः अपि अस्ति गणेशस्य वाहनमपि अस्ति चतुरः अपि अस्ति अस्माकं मैत्री तु अस्ति इति भवता पुनः एकवारं साधितम् अस्माकं पूर्वज समये अपि अस्माकं मैत्री अधुना अपि अस्माकं मैत्री भवान् मम मित्रं भवतः प्रशंसा यावत् क्रिये चेदपि तत् अपर्याप्तमेव इत्युक्ते प्रशंसा भवान् प्रशंसा प्रात्रः इत्युक्ते प्रशंसायाः किमपि तत्र नो लिमिट् टु इट् इति वदतु यावत् क्रियेत् चेदपि अपर्याप्तमेव पूर्तता एव न भवति हा अद्य प्रभृति वयम् अस्माकं पुत्रपौत्रान् एताम् घटनाम् अपि कथारूपेण कथयिष्यामः किमर्थं तत्र पश्यन्तु तत्र अस्माकं आ, देशे वा अस्माकं संस्कृत्यां तत्र कथा कथायाः तत्र परम्परा अस्ति परम्परायाः कथानां तत्र प्रेषणं भवति अत्र तत् वार्ता तत वा कथा रूपेन तत् कथारूपेण कथयिष्यामः एवमुक्त्वा पुनः अपि कृतज्ञतां समर्प्य वनराज गुहां गतः कथायाः आशयः कः चातुर्येण चातुर्यपूर्वकव्यवहार यदा कुर्मः चेत् किमपि असम्भवं नास्ति अग्रे पश्यन्तु अग्रे अपि अन्तिमापङ्क्तिः तत् भवती पठति वा सिंहस्य प्रशस् प्रशंसोऽनुसारे प्रश, अस्तु अस्तु सिंहस्य प्रशंसोद्रारै द्रारैः सन्तुष्टा तत्र वस्तुतः उद्गारैः प्रशंसोद्गारैः इति उद्गारः इति सिंहस्य प्रशंसोद् उद्गारैः सन्तुष्टाः काः अपि बिलं गताः Hmm. आत, आत्मानं चतुरम् मन्यमानाः शालक्षेपिनः पञ्चरं गृहीत्वा तत्र आगत्य लोहपञ्चरे सिंहम् अदृष् अदृष्टाः अदुष, अदृष्ट्वा दृष्ट्वा निराशाः रिक्तः हस्ताः सन्तः तस्मात् स्थानात् निर्गताः अस्तु अधुना सिंहेण तत्र प्रशंसा कृता मूषकाः अपि सन्तुष्टा ते सर्वे बिलम् गताः अत्र पश्यन्तु आत्मानम् शतुरम् मन्यमानाः जालक्षेपिनः वाक्यरचनाः अत्र वाक्यरचनायाः विषये वदामि जालक्षेपिणः इत्युक्ते व्याधाः सर्वे आत्मानं चतुरं मन्यमानाः स्वस्य विषये किं चिन्तयन्ति वयं चतुराः मन्यमानाः तेषां मनसि भावः कः सर्वे चतुरः आत्मानं स्वयं चतुरं मन्यमानाः जालक्षेपिण पञ्जरं गृहीत्वा तत्र आगत्य लोहपञ्जरे सिंहम् अदृष्ट्वा तत्र लोहपञ्जरे तत्र लोहजाले सिंहम् अस्ति वा न सिंहम् अदृष्ट्वा निराशाः भूत्वा रिक्तहस्ताः सन्त रिक्तहस्ता एम् टि हेण्डेड् स्थानात् अन्यत्र निर्गताः इत्युक्ते अन्यत्र ते सर्वे गतवन्तः निराशजनक तेषां तस्या एव ते सर्वे अन्यत्र निर्गता व्यादा आत्मा चुरा मनम परु अतिमत चतुरा, हा, इती हा। परंतु हा, के चतुरा जगते ये जन ये सी ते तम चातु व्यवहार अतिकम दृश्यं खलुस्त धन्यवाद किमपि वक्तव्यमस्ति वा कथायाः उपरि जयन्ति भगिनी विना भगिनी वाक्यं वदामि यत् चिन्तने भवति तदेव कार्ये अपि प्रदर्शयति अस्माकं कार्यं बुद्धिपूर्वकं भवेयं न इन्द्रियपूर्वकं सर्वे मिलित्वा कार्यं कुर्मः चेत् सुलभं मङ्गलम् अपि भवति सत्यं सत्यम् उत्तमम् उत्तमं वीणा भगिनी वीणा भगिनी वदति वा हा भगिनि कश्चित् कष्टः भवति चेत् धैर्येण वी ह्टु फेस् इट् वित् धैर्यं विल्स् फैण्ड् भगिनि धैर्यम् आचरणीयम् इत्युक्ते धैर्येण व्यवहार करणीयम् इति करणीयम् अस्तु सत्यं सत्यं <laughs> सत्यं तेन एव मार्गे हा हा वदतु अम्बिकापति महोदय कृपया बुद्धिमान् बलवान् आम् आम् इत्युक्ते बुद्धि बुद्धिचातुर्य तेन निराशा निराशा इति स्थितिः निराशाजनकस्थितौ अपि तत्र बुद्धिचातुर्येण वयं तत्र किमपि कर्तुं सक्षमः तत्र सर्वत्र निराशा तेन किं भवति किमपि कार्यं न सिद्ध्यति परन्तु आशा मनसि आशा स्थापित्वा तत्र व्यवहारं करणीयं बुद्धिचातुर्येण इति बुद्धेः एव सत्यम् अस्तु अन्य कोऽपि भारतमहोदय वक्तुम् इच्छति भारतमहोदय रमाभगिनी वक्तुमिच्छति वा अत्र कथा प्रेषयितुं शक्नोति वा कथा हा प्रेषिष्यामि अस्माकं गणे प्रेषिष्यामि धन्यवादः हा पुनः एकवारं तस्य पठन तथैव मया उक्तं तत् किञ्चित् तत्र स्तरवर्धनार्थमस्ति तत्र कथायां काठिन्यं तु अस्ति नूतन नूतनानां शब्दानामपि तत्र योजना दृश्यते एकवारम् अहं गणे प्रेषिष्यामि भवन्तः सर्वे पठन्तु पुनः एकवारं हा निश्चयेन प्रश्नाः सन्ति चेत् अग्रिमे वर्गे पृच्छन्तु अस्तु अस्तु अस्तु सर्वेषां अम्बिकापतिमहोदय भवान् कृपया शान्तिमन्त्रेण समापयति वा ओम् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु माखस्य दुःखभाद् भवेत् ओम् शान्तिशान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवान्यवादः धन्यवादः भगिनी पुनर्मिलामः पुनर्मिलामः